औदुम्बरेण मणिना पुष्टे कामायमेधसाः पशूनाम् सर्वे स्फातिम् गोष्ठे मेः स पिताकरत् योनोः अज्ञार्ह्यपत्यः पशूनामधिपा असत् औदुम्बरो वृषाः मणिः समाः सजत पुष्ट्याः कलिषिणीम् बलवतीम् गृहे औदम् वरस्य च सा धाता पुष्टिम् दधातु मे यद्विपाच्च चतुष्पाच्च यान्यम् नाहारिकेरथाः गर्णेकम् केषाम् भोमानम्यभृदौदुम् ब्रह्मणिम् पुष्टिम् पशूनाम् परिगर्ग्रभागम् चतुष्पराम् द्विपदान्यच्च धान्यम् पयः पशूनाम्रथ वोषधीनाम् बृहस्पतिः सभिता वै निगच्छात् अहम्बशो नामधिवासा नाम पुष्टम् पुष्टपतिर्दधातु मह्य मौदुम्बरो मणिर्द्रविणा निगच्छतु उप मौदुम्बरो मणिप्रजया च धने न इन्द्रेण जिन्मतो पत्रहा धन साधन सादरे पशोरन्नस्य भोवानम् गवाम् स्फातिम् नियच्छतु यथा ग्रहे त्वम् वनस्पते पुष्ट्या सह ज्ञषे धातु मे स्फातिमादधातु सरस्वती आमे धान्यं सरस्वती परस्फातिम् च धान्यम् श्रीवाल्युवाहवम् त्वम् रामाधिपावशासि त्वरी पुष्टम् पुष्टपर्य त्वयिमे वाचा द्रवेणादि सर्वौ दुम् वरः सत्त्वमस्मासारादिभूतम् कृतम् च ग्रामाणीरासि ग्रामाणीरुध्याजाभिषिक्तो तेजोसि तेजोमदीधारजाधिरजिरासिरजिम् मे धेहि पुष्टैरभि पुष्ट्याः वा गृहभवतिम् मा कृणो औदुम् वरः सत्वमस्मासो धेहिरयम् च नः अहन्ता अयमौदुम् वरो मणिर्वीरो वीराज बध्यते सरःसैम् मधूमतीम् कृणोतु रैम् शतकाखण्डो दुश्च वर्णः सहस्रपर्णबुद्धिरः गर्भोरमुद्रवोटाधिस्तन्तेः मध्राम्याजूषे प्राश्च केशान् प्रवपन्तितोधिराढमार्धते यस्माः अच्छिन्नपर्णेन गर्भेण शम्मागच्छति विविते तूल मोषधे हस्रकांडेनावर्धयामे दिश्रो दिव अच्छी दुर्घ दिवान्द्रृण दिवजासीवस्ह उहस्वंदौंस ही शेमि सहस्व नो अभी सहस्व पतना स्वहस्व सर्वाहम् दुर्हार्दः सुहार्दो बहून्क्रयधि गर्भेण देवजाहदेन निविष्टम्भेन शश्वजिते हेनाहम् शश्वतो जल असदान्सलवादिता प्रियम् माहादर्भगृहम् ब्रह्मराजन्याभ्याहम् सूद्राचार्याहारिता यस्मै च कामजामहे सर्वस्मै च विपश्यते योजायवानपृथिवीवरम् वाद्यो हस्तभ्रादन्तरिक्षम् दिवम् च जम् बिभ्रतम् ननुपहात्मा वे वेदस नोजम् दर्भोऽणो दिवाकाः सपत्नाः शतकाण्डः सहस्वादौषधीनाम् पृथवः संवभूव साक्षीर पृतना सहस्रार्गश्चत काखण्डवयस्पानपामग्निर्वेरुधाम् राजयसूयम् स नोजम् दर्भ परेपातु विश्वतोः देवो मणिराजूषासं श्रेजातिरः घृतादुल्लुप्तो मधूमान्वयस्पान् भो विदृम्भोच्चोदष्टामजिष्णोः ोरध्वरे वावित्रौरेतान्यस्मद श्रीष्णो राजाः विशासही रक्षोः विश्वदर्शणिः वोजोः देवानाम्बलमुलमेतत्तन्ते मध्नाविदरे गर्भेण त्वम् कृणवर्गीर्यहाणि दर्भम् बिम्भदात्मनाधिष्ठाः अधिष्ठारावर्चि धन्यान्तोर्यरिवादिशश्चतस्रः जङ्गिणोदिजङ्गिरो रक्षेतादिजङ्गिरः विवाहश्चतस्त्वादस्माकम् सर्वम् रक्षतु जङ्गिरः ज्याकृत्य स्त्रीपञ्चाशीष्टतम् कृतश्च सर्वाहन् भनकृते च सारसाम् जङ्गिरस्कारद अरसम् कृत्रिमम् नादमा रहसात्वविस्मरसः अपेतो जङ्टामतिविशुमस्ते वसादरा दूषणदेवाजमथोः हरादिदूषण अतो सहस्वाम् जङ्गिणप्रणारोहम् क्षितारिषद स जङ्गिणस्य महिमापरेण पातु विश्वताः निष्कन्धम् येन सा सह संस्कन्धयवो रवो जदेव आचरजन्निष्ठेतम् भौम्यामधि इति ब्राह्मणा भोर्व्यावेदो दत्त्वा पूर्वाभोषय धो धत्वारन्ति या नः विवाहाधमुग्रोजङ्गिरः अथोः पदानभवोजम् जटामजवीर्य पुरात उग्राग्रसट उपेन्द्रोः वीर्यम् ददौ उग्रयुक्तेः वनस्पत इन्द्रवो ज्ञानवादरधौ अभिः वा सर्वाश्चातरम् जहिरक्षाहम् स्योषधे आशरीकम् विषरीकम् मलादम् वृष्ट्या वजम् श्वशाहारदमरदाम् जङ्गिरस्कारद इन्द्रस्य राम गृह्णन्तर्षजो जङ्गिरन् दोः देवायम् चक्रुर्भेणजमग्रे विष्कन्धदूषणम् सरोः रक्षतु जङ्गिडोधनपालोधनेः वा देवायम् चक्रुर्ब्राहम् मणा परिपाणवराधिहम् दुर्घार्दः सङ्घोः रञ्चक्षु वा न मादयभन् कांस्त्वम् सहस्रचक्षो प्रतिबोधेन नाशरपरिपाणोदिजङ्गिणः परे वादिनः परे वा पृथिव्याः पर्यन्तरिक्षात् परे वा विरुद्ध्याः परे वा भूतात् परिभूत भव्याद्दिशो देशो जङ्गिणः यः कृष्णभोः देवकृताय कुतो वृतेऽन्यः सर्वाम्स्तान् इष्टभेणजो रसाम् जङ्गिरस्कर शतवाहारो अलीलशद्यक्ष्मान् रक्षान्सितेजयसा आरोहन्वर्जयसा सह मणिन्दुर्नामकातरः श्रृङ्गाभ्याम् रक्षो रुदते मूले न जातु धान्याः मध्ये रयक्ष्मम् बाधते नैनम् महात्माति तत्रति ये यक्ष्माः सो अद्भमहान्त शब्दिना सर्वाहम् दुर्ना महामणिः शतवाहारो अनीरशत शतम् वीराणक्षतम् यक्ष्मानवाहावुर्नाम् नः सर्वाहन् हत्वा वरक्षाहम्सिधूनते हिरण्यशृङ्गर्भवश्चाहदवारो अयम् मणिः दुर्णाम् नः सर्वाम् स्त्रण्ठावरक्षाहम् चक्रवीर शतमहम् दुर्णाम्नीहीराम् गम्धर्वा सारसाहम् शतम् शतम् श्वंवती शतवाहारेण वारे इदम् वर्जोः अग्निनाः दत्तवागम् भर्गो यशः सह गोजो वजोबलम् रष्टिम् सद्यानीत वीर्याः आहंसो वजों बल इंद्रिया कर्मी प्रदेश हा ओर्ज्त्वा बलायसे सहूयाभ पूूतार ऋतुभिश्वाद वैरायुषे वे ता संवत्सरस्य ते च सा तेन सम्भृत कण्मसि रतम् यक्ष्मा आरुम् धरेणैरम् शपथोः अश्नुते यम्भे रजस्य गुल्गुरो स्वोरभिर्गन्धो अश्नुते विश्वम् चस्तस्माद्यक्ष्माः मृगाश्वादीवेरते यद्गुल् गुरुसैन्धवम् यद्वाप्यादे समुद्र्यम् उभयोः रग्रभम् नामास्परिष्टाः तरे अयितु देवस्त्राय बाणः कुष्ठो हिमवतस्मै रग्मारम् सर्वम् नाशरय सर्वाश्चरा तु धान्याः त्रीणीतकोष्ठ नामा हारि नद्यमारोः नद्यारूढः नद्यायम् पुरुषोनिषत् यस्मै परिब्रवीविन्वासायम् प्राहतरथो जीवरानामत् माता देवन्तो नाम पिता नद्यायम् पुरुषोरिषद् यस्मै परिब्रवीवित्पाशायम् प्राहतरथो दिवा उत्तमो अस्योषधीरामरण्वान् जगदामिव व्याघ्रश्ववादामिव नद्यायम् पुरुषोरिषद् यस्मै परिब्रवीवित्पासायम् प्राहतरथो दिवाः अङ्गीरेत्येभ्यः परि निर्जातो विश्वदेवेभ्यः सकुष्ठोः विश्वभेरजः साकम् सोमेर तिष्ठति राग्मानम् सर्वम् नाशय सर्वाश्च जातु धान्याः अश्वत्थो देव सदनस्त्रीयस्यामितो दिवि तत्रामृतस्य चक्षाणम् ततः कुष्ठोः अजायत ष्ठो विश्वभेडजः साकम् सोमेरतिष्ठति रक्मानम् सर्वम् दाशय सर्वाश्च जातु धान्याः हिरण्यैणौरजधिरण्यबन्धनादि रद्रामृतस्य चक्षाणम् ततः कुष्ठोः अजायत प्रकुष्ठोः विश्वभे रजः साकम् सोमेः न तिष्ठति रक्मानम् सर्वम् दाशय सर्वाश्च यन्त्र नाम प्रभ्रंशनम् यत्र हिमवतः शिराः तत्त्वामृतस्य चक्षणम् ततः कुष्ठोः अजायत सकुष्ठोः विष्टभेदजः साकम् सोमेः न तिष्ठति रत्मानम् सर्वम् सर्वाश्च जातु धान्याः यन्ता वेदपूर्वविष्वाः कोऽयम्बात्वा जम्बापसोऽस्यस्तेनासि विश्वभे रजः शीर्षलोकम् तृतीयाकंसदम् निर्यश्च हाजरः तद्मानम् विश्वधा वीर्यधराञ्च वा यन्मे छिद्रम् मनसो यश्च वाचः सरस्वती मन्यमन्तम् जगाम विश्वैस्तद्देवैः सहजम् ेधाम् माम् ब्रह्म त्वमतिष्ठन सुहम् सुमेधाः वर्चस्ति मानोह मेधाम् मानो दीक्षाम् मानो हिंसिष्टम् यत्तवाः शिवानश्यम् श्रम् तायुषे शिवा भवन्त मातराः मानप्याः तावस्मै राहदताविषम् भद्रविच्छन्तर्षयश्वर्विदस्तपो दीक्षापनिषे तुरग्रे प्रलोः राष्ट्रम् बलभोजश्च जातम् तदस्मै देवा उपसन्नवन्तो ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवामिता अध्वर्यब्रह्मणो जातो ब्रह्मणोऽन्तर्हिते हरिः ब्रह्मस्त्रुजोः घृतवती ब्रह्मणा वेदिरुद्धीडा ब्रह्म यज्ञस्य तत्त्वम् च ऋत्विजो देहविष्मृताः शमिताय स्वाहा अम्भोमुचे प्रभारे मनीषा मा सुत्रा सुमतिम्मा मृणामः इजिन्द्र प्रतिहव्यङ्ग्रे अम्भोमुचम् वृषभञ्यग्निजाम् विराजम् तम् प्रसमद्भराणाः अपान्नपातपश्विनाः कुवेन्द्रिजेन धत्तमोजाः यत्र ब्रह्म वितो यान्ति दीक्षया तपसातः अग्रर्म तत्र न यत्तर्मे धाम् दधातुमे यत्र ब्रह्मविदो यान्ति दीक्षजातपसासः वायुर्मातत्र नयतु वायुप्राणाम् दधातुमे वायवे स्वाहा यत्र ब्रह्मविदो यान्ति दीक्षया तपसासः सूर्योः मातत्र नयतु चक्षुः सूर्ययोः दधातुमे सूर्याय स्वाहा यत्र ब्रह्म विदोजान्ति दीक्षजातपसासः चन्द्रो मातत्र नयतु मनश्चन्द्रो दधातुमे चन्द्राय स्वाहा यत्र ब्रह्म विदोजान्ति दीक्षजातपसासः सोमोहो मातत्र नयतु मनः सोमोहो दधातुमे सोमाय स्वाहा इन्द्रोः वा तत्र नयतु वरमिन्द्रोः दधातुमे इन्द्राः यस्वाहा यत्र ब्रह्मविदो जान्ति दीक्षजातपसासः आपोः वा तत्र नयन्तमृतम् मोपतिष्ठतो अभ्यस्वाहा यत्र ब्रह्मविदो जान्ते दीक्षजातपसासः ब्रह्मा वा तत्र ब्रह्मा ब्रह्म ब्रह्मणे स्वाहा आयुषोधिप्रतरणम् विप्रम् भेणमुच्यते कदाञ्जलत्वम् सन्ता देशमाप अभारम् कृतम् यो हरिमाजायान्योऽङ्गभेदोऽ समाकः सर्वम् तेजक्ष्मङ्गेभ्यो बहिहङ्गम् आञ्जनम् पृथिव्याञ्जातम् भद्रम् पूरुषजीवनम् कृणोत्तप्रमायुकम् रथजो देवनाहगधम् प्राणप्राणन्ताः यस्मासु अधर्वे मृणा निर्णीते निर्वृत्याः पाशेभ्यो च सिन्धोर्गर्भोऽसि विद्युताम् पुष्पम् पादप्राणः सोर्यश्चक्षुग्निवस्पदाः देवाहञ्जनम् त्रैगे कुतम् परे मापा विश्वदाः ध्यभवादक्षोभामि पचातनः अमे वा सर्वाश्चातनम् नाशनदपिभायितः पत् इदम् राजम् वरुणानृतवाहकोरुषः रा तस्मात् सहस्रवीर्य मुञ्चन पर्यम् हदः यदा भोः अज्ञाय देवरुणे देजो चिव तस्मात् सहस्रञ्चनः पर्यह्मश्च त्वावरुणश्चारुप्राञ्जननुगत्य दूरम् भोगाय पुरारोहतु ऋणाजम् कृत्याम् कृत्या कृतोः गृहम् चक्षुरुर्मन्त्रस्य दुर्घात् सृष्टिरपि यदस्मासु दुष्प्यम् यद्गोज नो गृहे अनाहावगस्तम् च दुर्घार्दप्रियप्रतिमुञ्चदाम् अपामोर्जवोचोभावधानमग्नेर्जातवधिज्ञातवेदसः चतुर्वीरम् पर्वतीयम् यदा जनम् दिशः प्रतिशत् कर दिक्षिमास्ते चुर्वीर बध्यट आंजलंशो अभस्ते द्रुवस्तिष्ठा से सीतेचार्य इवाशो अहर ते बलि आईकम मणिकनावेक चुर्वीर नैव्युतभ्य राह बंधेभ्य पलिस् अग्निर्माग्निनाः वत प्राणायाः पाणायायुषेवच्च समोजसे तेजसे स्मस्तरे तु भूतरे स्वाहा इन्द्रो वेन्द्रियेणाः वत प्राणायाः प्राणायायुषेवच्च समोजसे तेजसे स्मस्तरे तु भूतरे स्वाहा सोमो मा सौम्ये नावत प्राणायाः मानायायुषेवच्च समोज तेजसे स्वस्तने तु भूतरे स्वाहा भगोः मा भगेः नावत प्राणायाः माणायायुषेवच्च समोज तेजसे स्वस्तने तु भूतरे मरुतोः मा गणेरवन्त प्राणाय पानायायुषे वच्च स भोजसे तेजसे स्वोजे स्वाहा प्रजापदिष्ट्वा भद्रास्त्र मम स्त्रेतम् वीर्यायकम् दप्तेः भद्राम् यायुषे वच्च स भोजसे च महायस्त्रेतस्वाभिरक्षतु तिष्ठन्त रक्षमप्रपादवस्त्रेदेवम् मा त्वादस्यो नवधोऽनुष्वृतम् जतः सर्वा क्षत्रोऽन्विषयहस्तास्त्रेधस्त्वाभिरक्षतु क्षतञ्चरप्रहरन्तो निघ्नन्तो न तिष्ठिरे तस्मिन्निन्द्र पर्यदन्त चक्षु प्राणवधो बलवस्त्रेधस्त्वाभिरक्षतु इन्द्रस्य त्वा परिधावया भोजो देवानामधिराजो बभूव पुनस्त्वा देवा प्रणयन्तु सर्वे स्त्रेतस्त्वाभिरक्षत अस्मिन् मनावेकशतम् वीर्याणि सहस्रम् प्राणा अस्मिन्नस्त्रेते व्याघ्रः शत्रोः नभितिष्ठ सर्वाण्यस्त्वाहवृतज्ञानधरसौ अस्त्वस्त्रेतस्त्वाभिरक्षतु दल्लप्तमधो मान् वजस्मान् सहस्रम् प्राणश्चतयोः निर्वरोधाः शम्भोश्च वजोभोश्चोद्यस्मांश्च वयजस्मांश्चास्त्रेतस्वाभिरक्षतु यथाः असपत्रस्य पत्रः स जातानाः मधत्मधीतरात्त्वा सविताकारदस्त्रेतस्त्वाभिरक्षतु आराह दिवाथीव पिर प्राजिधा दिवस्तदा हम सिृह दीष्टे वर्तते तमा पारंद दृशे नोजो वक्ति मैं ये अरिष्टास्तुर्वितमस्पतिदीमहि भद्रे पारधीमहि त्रि चक्षतो द्रष्टारो नवतिर्नव अशीतिस्थम् चष्टा उतो ते सप्तसप्ततिः षष्टिश्च षट् च रेवति पञ्चा छत्रम् च सुन्दरि चत्वारश्चत्वारिंशच्चत्रयस्त्रिंशच्च वाजिनि द्वौ च ते विंशतिश्च ते रात्रे रा दशा ते भिन्न अद्य वायुभिर्नवाहिदुहितर्दिनः द्रक्षावायन्न अगजम् मानोः दुःशंसरीशत मानोः अद्य गवा हंस्तेनो भावीहीनामृकाररीशत मा श्वा नाम् भद्रे तस्करो मानुनाम् या तु धान्याः परमेभिः पतिभिस्तेनो धाहाव नमस्कारः परेण दत्पतिरज्ञः परेणघायुररिषधो अन्धरात्रि त्रिषुधो मम शीर्षाणमयिम् कृणो हरो वृकस्य जम्भाजास्ते रतम् द्रूपदे जहि परि रात्रिवसावति स्वपुष्यामासिजाग्रीहि गोभ्यो न शर्म गच्छाश्मेभ्यः अनो जाने जयस्वाः आह जाने शान्तः परिहीडहि कालीदे परिदनु रात्रि मातरुषेरः परि देहि दृषानु अन्ने परि ददानः स्वभ्यम्भम् विभावरि यत्किञ्चेदम् प्रदरति यत्किञ्चेदम् सारी यत्किञ्च पर्वतायासस्तम् तस्मात् त्वम् राहत्रिबाहिरः सा पश्चात्मा हृता पुरस्तोत्तरादधराधुधा गोपाय नो विभावय स्तोतारस्तरिहस्माधि नेरात्रेवन्ति ते च भूतेषु जाग्रहति पशून्ये सर्वान् रक्षान्ति तेन आत्मसु जाग्रहति तेन पशुषु जाग्रहति वेदवीरात्रितेनामघृता तेनामवासि राम् निर्दमोहोरारात्रीः देवस्य तविदुर्भगस्य अश्वक्षवा सम्भृतः श्रीरामप्रो पृथिवीम हित्वा अपि विश्वान्यरोहद्गम्भीरो वरिशिष्ठवरुहत श्रविष्ठा तिष्ठते मित्रदेव पर्य वंद्ये सुभागेशुता अस्पयाता गम्यांहस्त रात्रिश दीपुषस्त जाघ्रस्तो वच्च आदे अश्व्र पुरुस् वाणुपुरुषे विभा शिवाम् रात्रिमनुसोर्यवस्य सुखवाहनो अस्तु अश्व स्तोमस्य सुखगे निबोधने नावन्दे विश्वाः सु दिक्षो स्तोमस्य न विभाव निरात्रिराजेराभवाः सर्वेदो गच्छन्ति हीररोः क्षम्याः नाम रात्रितानस्तुवायस्तेनो न विद्यतेनत्वनर्न विद्यते भद्रासे रात्रि चो न शिष्टो विश्वम् चक्षुष्पटी मे विषयीवो हंशिप्रति दिव्यातक्मा अमुक्ताः यो अद्यस्तेन हा यत्यघायर्मद्यो हरिभो रात्री तस्य प्रतीत्यप्रग्रीवा प्रशिरोः हरदम् पादौ न यथा नयति प्रहस्तौ न यथा सेहत यो मालिम्लरुपायति सदम् पृष्टो अपाहयति अपाहयति तु स्थानामपायतः अन्धरात्रे मम शीर्षाणमयिम् कृणो अक्षौ वृतश्च निर्जास्ते हेभिन् अद्यपाहार गच्छति दुर्गाणि विश्वः रात्रिम् रात्रिवरिष्यन्तस्तरे वयम् गम्भीरमप्रवाजिभत दुर्वाहादरः यथा साम्याकप्रपदम् न भरवान्नानु विद्यते एता वा रात्रिप्रवाहत नो अस्मान् अभ्यधायति अवस्तेनम् वासो गोरज उदतस्करम् अरोजो अर्वतशिरोषति यद्याराह त्रितुभजे विभजम् त्यजो वसो यदेतदस्मान्भो जम्नानु माजसि उषधे नः परिदेहि सर्वाम् रात्र्य नागसाः उषारो अह्ने नाभजातहस्तभ्यम् विभावरि अयूतोऽहमयूतो म आत्मायूतम् मे चक्षुरयूतम् मे श्रोत्रमयूतो मे प्राणोयूतो मे पानो यूतो मे ज्ञानो यूतोऽहम् सर्वाः देवस्यत्वा सवेतप्रथमे एश्वरो बाहुभ्याम् ओष्ठो हस्ताभ्याम् प्रसूत आरभे कामस्तदग्ने समावर्तत मनसो नेतः प्रथमै यदासीत् सगाव कामे नृहता तीज स्पोटेगा प्रतिष्ठि विभुर्वा सख आतना सहोजो यजमा दूरा चार्षे आस्मा अशुण्वन्ना कामज स्वाहा कामे न म कामहाकम् हृदय हृदयम् परे यदमे हविः तन्नः सर्वम् समृद्ध्यतामथे तस्य हविशोः स्वाहा कालो अश्मो वहति सत्तरश्मिः अजरो भूरिरेताः न्विकवयोः विपस्थितस्तस्य चक्रभुवनादि विश्वाः सप्तचक्रान् बहति कालजेषास्ते नाभीरमतन्वक्षाः सिमाविश्वभुवनान्यञ्जकालः सरीयते प्रथयो नुदेवः पूर्णः कुम्भोऽधिकालाधीतस्तम्भे पश्याः वो बहुधातु सन्तः स इमा विश्व भुवनानि प्रत्यङ्कालम् तमाहु परमेव्योन् स देवतम् भुवन्याभरत्स देवतम् भुवनानि पर्यैत् पिदासम् न भवत्पुत्र येषाम् तस्माद् परमस्ति तेजाः कालो ॐ निवदकाल इमा पृथिवीता कालेह भूतम् भव्यम् च हितम् हविर्तिष्ठते कालो भूमीपदृजनकाले तपतिसूर्याः काले कविष्माः भूतानि काले चक्षुर्विपश्यति काले, काले मनःकाले प्राणः काले नाम समाहितम् कालेन सर्वानन्दम् जागतेन प्रजागिमाः काले तवः काले ज्येष्ठम् काले ब्रह्म समाहितम् ते जातं कालो ह सर्वस्यैश्वरो प्रजापते तेनेदम् तेन जातम् तत् तस्मिन् प्रतिष्ठिताम् कालाः ब्रह्म भूत्वा विभक्तिवृष्ठिनम् कालप्रजा अधत कालोऽग्रे प्रजापतिम् स्वयम्भोः कश्यपत्कालात्तवत्कालादजायत कालादावसमाभवन् कालाद् काला काला ब्रह्म तपोदिशाः काल नो दूर्य कालेषते पुरा काल पवते कालो काले काले मही मही भूतं भूतम भव्युत्रोजतुरा कालाद सामजो कालादाता कालो यज्ञ सभीे काले गन्धर्वात् सरसः काले लोकाः प्रतिष्ठिता कालेङ्गीरादिगोधरतिष्ठतः गिरम् च लोकम् पारवम् च लोकम् पुण्याम् च लोकाभिधृतीश्च पुण्याः सर्वान् लोकान् अभिजित्य ब्रह्मण कालस्तरीयते पर वालुदेवः रात्रिम, रात्रिम रात्रि रात्रि प्रजात भर तौते जाता रायस्पोजुन तो माते अग्न प्रतीवेशातरा वृ रायस्पोजुन तो माते अग्न प्रतीवेश सायंसहायम् गृहवादम् नो अज्ञमरस्य दाता वसोर्वतो रेधि वयम् मेन्द्रन्वम् बुधेम प्रातप्राहातर्गृहवादम् नो अज्ञस्तायम्सहायम् सौमरस्य दाता वसोर्वतोर्वसुतार रेधित्वार्धेम पदने अवशा दधा अन्नाद्र जो अग्न सभ्यस्त बाह सभ्यापुरुरोहो विश्व अहार हम निते हम तो प्रमदा सरथं जासि जमस्त गोकार भूपादिधीरागिरा सरथंत्र ब्रह्मी वह सूरसो बंध्वाग्रे विश्वजुराजली तो प्रेतम भू विश विषग बृहद्भ्योऽपि देवा वर्तत परिवारमिच्छन् तस्मै स्वप्रहाराधिपत्याम् प्रयत्स रालशालाः नैताम् वेदः पितरो नोतदेवारेणाञ्जल् निश्चरत्यन्तरेतम् कृते स्वप्र मृदुराप्तेन न आदित्यादो अरुणे नासौ शिष्टाः यस्य क्रौरमाभिन्द्रुतः स्वप्रदुण्यमायोः सर्वदेव बन्धुराः तप्यमानस्य सर्वाः परियात् पुरस्ताः विद्नस्त्वप्रयाते यस्ति रामानो देघवाःभिरपाजाहि दूरम् यथा गणाम् यतमः शपम् यथा नयन्ति एवा दृष्टभ्यम् सर्वमप्रिये सन् न यामसि सम्राजार्यगुस्सङ्कुष्टा गुस्तभ्य निर्देशते दृष्टभ्यम् सुभावा देवानाम् वद्रीणाम् गर्भजमस्य करजो भग्रस्वप्रः समाजपादस्तद्दीशते प्रहिण्वः आदृष्टा नामादिकृष्टु मे मुखम् दन्ताः स्वप्नदधाथम् विन्नधत्तम् स्वप्नाश्वरिवकायमश्वरिवरीणाहम् अनास्माकम् देहे वा पेयम् विलाहारुम् अपर्यदस्मासो दुःस्वप्नम् यद्वोच्च गृहे अनास्माकस्तद्देहे वेयुम् विलाहारुर्निष्कमे प्रतिमुञ्चता नवाहारीन अस्माकम् दस्प्यं निर्दयाम से घृत्योति मना वर्धय चक्षण छिन्स्विन् वयुषो सह उगा स्म प्राणोता मुगा वयंणो भवामहे भर्चो जग्रहृथिव्यार्चस्ोत् वर्च पृथिवी संग्रहणी वर्चो गृह पृथिवीम सचांग गो गौपादपति यशो गृह पृथिवीम सचारे रजम् कृणद्धम् सैवो बर्माम् बहुरा पुराकृसीरधृष्टा वामस्तु च मनसादृशम् यज्ञश्च चक्षुप्रभृतिर्मुखम् च वाचा श्रोत्रेण मनसाजुहोमि इमै यज्ञम् वितरतम् इष्टकार्मारा देवायम् तु सुमनस्य देवानाः मृत्युदोजे च यज्ञिराजेभ्यो क्रियते भागधेनम् इम यज्ञम् सह पत्नीभिरेतया देवस्त मातरम् ता समज्ञे म्रतमारसि देव आवर्तेष्व त्वयि यज्ञेष्वेद्याः यद्वोः वयम् व्रतादि देवा, देवा अवि अग्निष्टग्निष्पान्त्य प्रवाढम् अज्ञम् विद्वान् सरजात्सरिद्धो दासोः भवान् सजतान् कल्पयाति प्राणश्चक्षुरक्ष श्रोत्रम् कर्णजाः अपादिता ते चो नादिता महार्बलम् पूर्वोरोदङ्करोपादयो प्रदिष्टा इष्टानि मे सर्वान्मादि पृष्टः तनोस्तम्बाः मे सहे एतन्ताः सर्व मायूरशील शोणम् मे सेद पुरःप्रेणस्व भवन स्वर्गे प्रियम् महाकृनु देवे प्रियम् राजधुमाकनु प्रियम् सर्वस्य पश्यतोशूद्र उतार्ये उत्तिष्ठ ब्रह्मणस्पते देवान् यज्ञेन बोधय आयुः प्राणम् प्रजाम् पशून् कीर्तिम् यदेवानम् च वर्धय अग्ने सविध महारिणम् बृहत जातवेदसे समे सर्धाम् च भेदान् च जातवेदा विद्वेन तदा त्वमस्त्वाूणि सर्वम् तदस्त्वमेषिवम् तज्योधस्वचविष्य एतास्ते अग्ने समिधस्तामिद्धंसो समिद्धा वा आयूरस्वासुधेश्चमृतत्वमाहाचार्याः हरिस्तुर्णो दिवोर्चिषा सन् दिवत्ता हर सातवे दुग्धिषा दिवसू अयोजा माजिजस्मे पाशरंगिनो ये चलते राहर सातवेद सहस्रदृष्ट सप्रृणंबाजिमंजा अशेः वशादश्चतम् जीवेः वशरदश्चतरम् बुद्धेः वशरदश्चतम् रोहे वशरदक्षतम् ऊहेः वशरदक्षतम् भवेः व शरदक्षतम् भूयेः वशादक्षतम् भूयधे शरदशतात् अव्यदत्तम् व्यध्यमिदम् भ्याः उद्भृत्य वेदवध कर्मणि कृण्महे जीवास्थजेम् जासम् सर्वमायुद्धीं व्यासम् उपजीवास्थोपजेम् जासम् सर्वमायुद्धीव्यासम् सञ्जीवास्थ सञ्जीम् जासम् सर्वमायुद्धीं व्यासम् जीवरास्थजीम् जासम् सर्वमायुज्जीं व्यासम् इन्द्रदीनसूर्यजीव देवादेवादीं व्यासमहम् सर्वमायुजीम् व्यासम् स्तुतावयाः परदावेदः प्रदोदनम् ताम् पाममानीम् विचाराः आयुः प्राणम् भजामसोन्कीर्त्यम् द्रवेणम् ब्रह्म वर्चम् मर्यम् दत्त्वा ब्रह्मलोकम् यस्मात् कोषाः दुरभरामवेदम् तस्मिन् दर्वध्वरेण कृतमिष्टम् ब्रह्मणो वीर्येण तेन ओ इत्येकोनविंशम् काण्डम् समाप्ता